नारायणीयं दशकं फैव् मीटर शार्दूलविक्रीडितम् व्यक्रा व्यक्रमिदं न किञ्चिदभवत् प्राक, प्राकृत प्रक्षये। प्राकृतप्रक्षये मायां गुणसौम्यरुद्धविकृतौ त्वय्या गदायां लयं नो तदा मृतं समभून्नाखनो नरात्रेस्ति रात्रेस्तिभिस्तत्रैकस्त्वमशिष्यधा किल परानन्दप्रकाशात्मना कालकर्मगुणाश्च जीवनिवः विश्वं च कार्यं विभो चिल्लीलारदि मेयुषि त्वयि तेषाम् नैव वदन् सत्त्वमयि भो नोचेत्किम् तिष्ठताम् नो चेत् किं गगनप्रसूनसदृशाम् भूयो भवेत् सम्भवः एवं छद्विपरार्थकालविकदा वीक्षाम् सिसृक्षात्मिकाम् बिभ्राणे त्वयि चुक्षुभेत्रिभुवनी भावाय मायास्वयं स्वयम् माया धलु कालशक्तिरखिला दृष्टं स्वभावोऽपि चप्रादुर्भूय गुणान्विकास्य विदद्धुस्तस्याः सहायक्रियाम् माया सन्निहितो प्रविष्टवपुषा भवान् भेदैस्ताम् प्रति बिम्बदो विविशिवान् जीवो नैवापरः कालादिप्रतिबोधिताध भवदा सञोदिता च स्वयं माया सा खलु बुद्धितत्त्वमसृजद्योऽसौ महानुच्यते तत्रा सौ महान सत्वप्रधानस्वयं जीवेऽस्मिन् खलु निर्विकल्पमहमित्युद्बोधनिष्पादकः चक्रेऽस्मिन् सविकल्पबोधकमहन्तत्वं महान् खल्वसौ सम्पुष्टं त्रिगुणैस्तमोदिबहुलं विष्णो भवत्प्रेरणाद सोऽहं च त्रिगुणक्रमात्रिविधदा मासाद्यवैकारिको वैकारिको भूयस्तैजसतामसा विधि भवन्नाद्येन सत्वात्मना देवानिन्द्रियमानिनो कृददिशा वादार्कपाश्यश्विनो वनीन्द्राच्युतमित्रकान् धूमन्मानसबुद्ध्यासंकृतिमिलच्चित्ताख्य वृत्त्यन्वितं तच्चान्धकरणं विभो तव बलसत्वांश येवासृजद जातस्तैजसदो दशेन्द्रियगणस्तत्ताम सांसात् पुनस्तन्मात्रं नभसो मरुत्पुरपदे शब्दो जनित्वद्बलाद् शब्दाद् व्योमतदः ससर्जितविभो स्पर्शं तदो मारुतं तस्माद्रूपमदो महोथ च रस्सं तोयं च गन्धं भूदग्राममिमम् त्वमेव भगवन् प्राकाशयस्तामसाद यदे भूतगणास्तद्धेन्द्रियगणादेवाश्च जादाः पृथं नो चेकुर्भुवनाण्डनिर्मितिविधौ देवैरमीभिस्तदा त्वं नानाविधसूकृभिर्नुदगुणस्तत्त्वान्यमुन्या विश्वंश्चेष्टा शक्तिमुदीर्यता निघटयन् हैरण्यमण्डं व्यधाः अण्डं तत् खलु पूर्वसृष्टसलिले तिष्ठत्सहस्रं समाः निर्भिन्दन्न कृताश्च दुर्दशजगद्रूपं विराडाह्वयं साहस्रै करपादमूर्धनिव हैर्निःशेषजीवात्मको निर्भातोऽसि मरुत्पुराधिपसमां त्रायस्व सर्वामयाद ॐ सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द